द्वादशाधिकशततमोऽध्यायः वैशंपायनोवाच ततः शान्तनवो राज्ञः पाण्डोर्यशस्विनः विवाहस्यापरस्यार्थे चकारमतिमान्मतिम् सोमात्यैस्थविरैः सार्धम् ब्राह्मणैश्च महर्षिभिः बलेन चतुरङ्गेण ययोमत्रपतेः पुरम् तमागतमभिश्रुत्य भीष्मम् वा येकपुङ्गवः प्रत्युद्गम्यार्चयित्वा प्रावेशयन् नृपः दत्त्वा तस्यासनम् शुभ्रम् वाद्यमघ्यम् तथैव च मधुपर्कम् च मद्रेशः पप्रच्छागमनेऽर्थिताम् तम् भीष्मः प्रत्युवाचेदम् मद्रराजम् कुरुद्वहः आगतम् माम् विजानीहि कन्यार्थिनमरिन्दम श्रूयते भवतः साध्वी यशस्विनी तामहम् वरयिष्यामि पाण्डोरर्थे यशस्विनीम् युक्तरूपो हि सम्बन्धे त्वम् नो वयम् तव एतत्सञ्चिन्त्यमत्रेष गृहाणास्मान् यथाविधि कमेवम् वादिनम् भीष्मम् प्रत्यभाषतमद्रपः न हि मे न्योवरस्त्वत्तः श्रेयानिति मतिर्मम पूर्वैः प्रवर्तितम् किञ्चित् कुलेऽस्मिन् रुपसत्तमैः साधु वा यदि वा साधु तन्नातिक्रान्तुमुत्सहे व्यक्तम् तद्भवतश्चापि विदितम् नात्र संशयः तथा वक्तुम् भवान् देहीति सत्तम कुलधर्मः स नो वीर प्रमाणम् परमञ्च तत् तेन तम् भीष्मः प्रत्युवाचेदम् मद्रराजम् जनाधिपः धर्म एष परो राजन् स्वयमुक्तः स्वयम्भुवा नात्र कश्चन दोषोऽस्ति पूर्वैर्विधिरयम् कृतः विदितेयम् चतेशल्य मर्यादा शल्य मर्यादासाधुसम्मता इत्युक्त्वा स महातेजातकुम्भम् कृता रत्नानि च विचित्राणि शल्यायादात्सहस्रशः गजानश्वान् रथांश्चैव वासांस्याभरणानि च मणिमुक्ताप्रवालम् च गाङ्गेयो व्यसृजक्षुभम् तत्प्रगृह्य सर्वं सर्वम् शल्यः सम्प्रीतमानसः ददौ ताम् समलङ्कृत्य स्वसारम् कौरवर्षभे सताम् माद्रीमुपादाय भीष्मः सागरगासुतः आजगामपुरीम् धीमान् प्रविष्टो गजसाह्वयम् तत इष्टे हनिप्राप्ते मुहूर्ते साधुसम्मते स्थापयामासताम् भार्याम् शुभेवेश्मनिभाविनीम् सताभ्याम् व्यचरत् सार्धम् भार्याभ्याम् राजसत्तमः कुन्त्या माद्र्या च राजेन्द्रो यथा कामम् यथा राजा विहृत्य त्रिदशा निशाः जिगीषया महीम् पाण्डुर्निरक्रामत्पुरात्प्रभो स भीष्म वृद्धान् अभिवाद्य प्रणम् धृतराष्ट्रञ्च कौरव्यम् तथान्यान् कुरु सत्तमान् राजा तेजैवाप्यनमोद मंगलाचार युक्ताषेरभनंद गजवाजिथेन बल न महता ग राज गर्भा विजिगीषुर्सुंधरा हृष्टुष्ट बलै प्रायांडुशत्रुननेकश पूगस्कृत गषाण स पाण्डुना नर सिंह कौरवाण् यशोभृता तत सेनाय पाण्डुन्नाध्वजा प्रभूत हस्त्यश्वयुताम् पदातिरथसङ्कुलाम् आगस्कारीमहीपानाम् बहूनाम् बलदर्पितः गोप्ता मगधराष्ट्रस्य दीर्घो राजगृहे हतः ततः समादाय वाहनानि च भूरिशः पाण्डुना मिथिलाम् गत्वा विदेहाः समरेजिताः तथा काशिषु सुहनेषु पुण्ड्रेषु च नर्षभ स्वबाहुबलवीर्येण कुरूणामकरोद्यशः तम् शरौघमहाज्वालम् शस्त्रार्चिषमरिन्दमम् पाण्डुपावकमासाद्य व्यदह्यन्तनराधिपाः ते ससेनाः ससेनेन विध्वंसितबला नृपाः पाण्डुनावशगाः कृत्वा कुरुकर्म तेनते तेन ते सर्वे पृथिव्याम् सर्वपार्थिवाः तमेकम् मेनिरेशूरम् देवेष्विव पुरन्दरम् तम् कृताञ्जलयः सर्वे प्रणतावसुधाधिपाः उपाजग्मूर्धनम् गृह्य विविधानि च मणिमुक्ताप्रबालम् च सुवर्णम् रचतम् गौरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान् खरोष्ट्रमहिषीश्चैव यच्च किञ्चिदजाविकम् कम्बलाजिनरत्नानि प्राङ्कवास्तरणानि च तत्सर्वम् प्रतिजग्राह राजा नागपुराधिपः तदादा पुनर्मुदितवाहनः हर्षयिष्यन् स्वराष्ट्राणि पुरम् च भरतस्य धीमतः प्रणष्टः पाण्डुना पुनराहृतः ये चह्रुः कुरु धनानि च ते नागपुरसिंहेन पाण्डुना करदीकृताः इत्यभाषन्त राजानो राजामात्याश्च सङ्गताः प्रतीतमनसो हृष्टाः पौरजानपदैः सह प्रत्युद्ययुश्च सम्प्राप्तम् सर्वे भीष्मपुरोगमाः तेन दूरमिवाध्वानम् गत्वा नागपुरालयात् आवृतम् ददृशुर्हृष्टा लोकम् बहुविधैर्धनैः नानायानसमानीतै रत्नैरुच्चावचैस्तदा हस्त्यश्वरधरत्नैश्च गोभिरुष्ट्रैस्तथाविभिः नान्तम् ददुशुरासाद्य भीष्मेण सह कौरवाः सोऽभिवाद्यपितुः पादौ कौसल्यानन्दवर्धनः पौरजानपदानपि प्रमृद्यपरराष्ट्राणि कृतार्थम् पुनरागतम् पुत्रमाश्लिष्य हर्षादश्रूण्यवर्तयत् सतूर्य शत शङ्खानाम् भेरीणाम् च महास्वनैः हर्षयन् सर्वशः पौरान् विवेश गजसाह्वयम् इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि पाण्डुदिग्विजये द्वादशाधिकशतमोऽध्यायः